एकदेवोमी देवदीयति अभिद्रोणान्यासनम् एकदेवोऽपि राम् ति पमानोमदाभ्यः एकदेवोऽपि पन्नभिः पपामानलुभिः हरिर्वाजाय मृज्यते एष विश्वायुवार्यासूरोः अपमानस्य एष देवो द्यति पमानो दशस्यति आविष्के नो दिवग्मनुष तोपो देवो विगाहते तथा रत्नानि दाशुषे एष दिपम् विधापति तिरोरजाम् सुधारया अपमानकिले एषदिपम् जाता तिरोतः अपमानश्वध्वरः एष रत्नेन जन्माना देवो देवेभ्युवः हरिः पवित्रे हरिषदि एकोचपूर्वम् रतो जग्नो जगजन्दि अथा नो वस्य नास्वा अर्विश्वाजरो मरोहगा अथा नो वस्य कृति स नादक्ष मुदाक्रो मरुः अथा नो वस्य सत्कृतिः ीरानः पुनीनरो मिन्द्राजपातवे अथा नोमस्य सस्कृतिः त्वं सूर्ये नाभजतवक्रत्वातभोतिभिः अथा नोमस्य सस्कृति तव वक्रत्वातबोतिभर्दस्य सूर्यम् अथा नोमस्य सस्कृतिः अभ्यर्डस्वायुधो मद्विपर्हसम् अथा नोमस्य अभ्या अर्डानः अथा नोमस्य संस्कृति स्वाम् यज्ञैरवे अथा नोपस्य संस्कृति ीडन् मृषा कनिक्रजत् नो न पात्व मानशृङ्गे सि सा नो हरिषति अन्तरिक्षे न राराजत् ीलेऽन्यः पवामानो नैर्विराजयद्युमान् मधोर्धाराभिरोजसा वरे प्राचीनमोजसा पमानस्पृणम् हरीः देवेषु देवै यते उदातैर्जिगदे बृहद्वारो देवैर्हिरण्यैः अपराष्टूता ेहदीमहि पवमानो वृषण्यति न कोषादा न से उभाचक्षसा होता रादेव्या हुपे पपमानयेन्द्रो वृषाः भागी पवमानस्वरस्वदेवामहि यमन्ना यज्ञमानमन्दिस्रो देवी सुपे सह ष्टारमग्रजाम् गोपाम् पुरो या वा न बहुवे इन्दुलेन्द्रावृषा हरिः पवमानः प्रजापतिः मनस्वलिम् पवमानवध्वासमम् जिहारय सहस्रवल्संहरि सम्भ्राजमानम् हिरण्यम् श्वेदेवाहाग्लिम्बभमानस्यागता वायुर्वृहस्वश्वमधारजा वृषाः भवस्व देवयोः अभ्यो मारेष्व स्मयोः अभिज्यम् मध्यम्मधमिन्द्रविन्द्रजितिक्षर अभिवाचिनो हतः भिज्ञम्भोजम्वदम् सुबानोर्ष पवित्रा अभिवारमुतस्रवाः न प्रभतासरन् पुन इन्द्रमासत यमत्यमिव वाचिनम् व्रजन्ति योष नोदस मजे क्रीडम् तमत्याभिम् ङ्गोभर्भृष नम्रसंवताय देववीतये श्रुतम्भराय संसृज देवो देवायधारजेन्द्राय पवते सुतः वयोजतस्य पीपजत् आत्मा यज्ञस्य पावते सुगः निपादिकाभ्रम् ो रामहिम् व्रजुर्मदम् अधिष्ठभीतये भुवासिद्धिषे गिराः असृग्रविन्दवत्पथा धर्मम् मृतस्य शुश्रियाः विधानास्य योजनम् तथा रामध्वो अग्र्यो महीरपो विगाहते हविर्हविष्णुवन्द्याः युजो वाचो अग्रियो वृषावचक्रदध्वले सद्वाभिषद्यो अध्वनः अर्यत्काव्याः कविर्ब्रह्मावसानो अर्षति सर्वाजीशीषासति पमानो अभिस्मृतो विशो राजेव वृण्वन्ति वेधसाः आम् यो वा रे परिप्रियोह निर्वले एषु सीदति रे भो वा नृष्यते मती समाजमिन्द्राभस्विनाः साकम् मते येन गच्छति न अस्य धर्माभिः आमित्रावलो नाभगम् मध्वः भवन्त भूर्मजाः अस्य सग्माभिः अस्मभ्यम् रोदसीलयम् मध्वोवाजस्य सातये श्रोपसूरिसञ्जितम् एते सोपा अभित्रियमिन्द्रस्य कामा अक्षरम् अर्धम् तो अस्य वीर्यम् पुनाशश्च मूढतो गच्छन्तो वाजुमश्विना एनो इन्द्रस्य सोमनाथ से पुनानोहार्दिचोदय ऋतस्य योनिवासरम् रयन्ति द्वातसक्षिपो हिन्वन्ति सप्तधीतयाः अनभिप्राः अमादिषुः देवेभ्यस्त्वामुदायकम् श्रीजानमती मेष्याः सङ्गोभिर्वासयामसि नः कलसे श्वा वस्त्राण्य ऋषो हरीः हरिगव्यान्यव्यघो न आपवस्व नो जयि विश्वापद्विषाः इन्दो सखायमावीष दृष्टिम् दिवः परिश्रवजुम्नम् पृथिव्याधि सो न सोमभृत्सुधाः त्रिलक्षसन्वा वयमिन्द्रवीरम् स्वर्मिदम् रक्षे महि प्रजामिषम् परिप्रियादिवः कविर्वजांसि नब्दोषितः सुवारोतुः प्रप्रक्षया जपन्नसेनायजुष्टोः अद्रुहेः नित्यरुषचनुष्ठया स सोनर्मातरासु च जातो जाते अरोचयत् महान्महीर्ता वृथा सप्तधीतिभिर्हितो नद्योः अजिन्मदद्रुहाः जाये शमश्रीमा विरुः ता अभिनन्तमत्रे तम् महे युवानमदधुः इन्दोमिङ्ग्रतव व्रते अभिवन्निरमर्त्यः सप्तपस्य दिवा बाहिः प्रविर्देवैरतर्पयत् अपाकल्पेऽरुणः पुमस्तमाम् दिशोमजोध्या तानि पुनान जङ्घनः नूनम् जयसेन वीयसे सूक्ता जयसा पबवा न मिश्रभो गामश्वम् राजिवीरवद् स रामेधा च रास्वाहो रथा युवार्वन् दोरस्रवस्वाः सोमासो राजेरक्रमः हिन्वारासो रथा जिवदधन् विरेगभस्योः भराध आगिरा। राजा नो नः प्रशस्तभिः सोमाः सो गोभिरञ्जते जयज्ञो न साप्तधातृभिः परीषु वानासयिन्दा भोमलायबर्हणाः गिरा सुता अर्षन्ति धाराजा आपासो विवस्वतो जनं तव सोभरम् सूराहणम् विलम्बते अपद्वारा मतीनाम् रत्नारिम् वन्दिकारवाः कृष्णो हर स आयवाः समीचीना स आसदे होताहारः सप्तगामयः पदमेकस्य बिभ्रातः भानाभिन्नाददे चक्षुश्चित्सो ये सगाः हरेरमद्यमादूहे अभिप्रियादिवः प्रथमध्वर्गभिर्गुहाहितम् सूरः पश्य तिचक्षसा वा श्रीगायतावमानायेन्द्रवे अभिदेवां नियक्षते अभिदेवधूमयो सर्वानो न शिश्रयोः देवम् देवाय देवयो स नः पव स्वसङ्गभे सञ्जनाय समर्वते सम्राजन्नौषधीभ्यः भ्रमेणुस्वतवसे रुनाजाति विस्मृते सोमा जघातमर्चत हस्तच्युतेऽभिरत्रिभिः सृतम् सोमम् पुरीदन भसेदुपासीद तदध्नेदभिश्रीतन इन्दुमिन्द्रे दधातन अमित्रहातर्ष निः पवस्व सोमसङ्गवे देवेभ्यो अनुकामकृते इन्द्राय सोमपात वेमदाय परीषिच्यसे मनश्चिन्मन सरस्वतीः अवामानसुवीर्यम् प्रयम् सोः वरीहः इन्द्रमिन्द्रे सो नमो युजा सोमा अरग्रविन्दवत्सुता विरस्य साधने इन्द्रायमधूमत्तमाः अभिविप्रा अनूढदगावो वत्सङ्गमातराः इन्द्रम् सोमस्य पीतये मदच्चुक्षे दिशादाने सिन्धो रूर्माभि कश्चित् सोमो गौरी अधिश्रिरः दिवो नाभावामि चणो ज्योभारे महीयते सोमो यः सुभ्रदः कविः यः सोमः कलसेष्वाम् अन्तः पवित्र आहीनः तमिन्दुः परीषस्वजे वाचमिन्दोरिष्यति समुद्रस्याधिविष्टपि जिह्वान्कोशम् मधुस्तुतम् नित्यस्तोत्रो वनस्पति स वद्धुघाः हिन्वानो बालोषायुगा अभिप्रिया दिवस्पदा सोमो हिन्वानो अर्हति त्रिप्रः स धाराया कविः आपावमानधारय रजम् सहस्रवर्चसम् अस्मे इन्दो श्वाभुवम् भद्रह्मभिदयमनाः ओरिः ओ सोमः पुना नो वर्षि सहस्रदारो अत्याभिः न्द्रस्वक्षितम् अपमानवासुभिप्रमभिप्रगायत सुश्वानम् देववीक्रये अपमम् देवाजसातजे सोमा सहस्रवायसः देववीजीक्रये उत नो राजसातजय पवस्व बृहतीशाः युमजिन्दोसुवीर्यम् तेन सहस्रणम् भजम् भवन् रामासुवीर्यम् सुबारादेवास इन्दवः अत्याः हि यानान हेतृभिरसृग्राह्माज सातये दिवारम व्यामासवाह वास्रा हर्ष नेन्दवो विभत्सन्न धेन वा ो दुष्ट्राय मत्सरः पपामानकनिक्रदत् विश्वा अभद्विषो जहि अपघ्नन्तो अराम् नः पपामाना स्वदृशाः यो नास्य शील परिप्राशिसरकः सिन्धो रूवधिसृः आरम् विभ्रक्पुरुः स्पृहम् निराजति समम् नवः पञ्चव्राता अपश्यवः हरिष्कृन्ति धर्मसिम् आदस्य सुक्ष्मिनो रसे विश्वे देवा वत्सत यतीकोऽभियते निरिनानो विधावर्यानितान्वा अत्रा सञ्जिघ्नते युजा नप्ते धर्यो विवस्वादः शुभ्रो ममा मृजे युवा गान् बाणो न निर्मितम् अजिश्रतीजिरश्च ताः गव्यादिगात्यन्यामीयद्धियम् विदे अभिक्षिवः समग्मतमजम् तीरिहस्तम् दृष्टाजभ्रतपादिनाः परिजायाम्रे सद्विश्वानि सोमपार्थी वा असूरियाच्यस्मयोः एषधिया यात्यशूरो रथेभिरासुभिः गच्छन् इन्द्रस्य निष्कृतम् एष पुरोधियायते विहते यत्रामृता जासते एष हितो विनीयते दः शुभ्रवदापसा यदि एतृञ्जन्ति घोर्णय एष लृङ्गानि गोधो वत्सिच्यो वो वृषा लृङ्नादरा रोचसा एष रुग्मभीरीयते वाजीशुभ्रे धीरं सुभिः पतिः सिन्धू नाम् भवन् एष पशू निवेदनापरु राजयिवा अवसादे गच्छति एतम् मृषन्ति मध्यमुभद्रोणेष्वाजवाः न चक्रालम् एतमुच्चन्दसक्षिपो भ्रजन्ति सप्तधीतयाः स्वायुधम् मलिन्दमम् प्रथे सोदारोन्यो ओनसम्मदाः जगृष्व ये सर्गो नत्येतसः तत्त्वा दक्षस्य रथ्यापोवसाः न मन्दसा गोगामन्वेषु धस्विव अनक्त मत्सु दृष्टरम् सोमम् पवित्रासे मुनीहीन्द्रायपातवे प्रभूनानस्य चेतसा सोमः पवित्रे अर्षति रत्वा सशस्तमासदत् रत्वा नमो भेन्द्रमगेन्द्रसोमागृक्षत मये भलायकारिणाः पुरानो रूपे अव्यजेभिस्वा अर्णम् अभिस्तुजाः सूरो न गोषो तिष्ठति दिवो न सानो विप्युषीधाराः सुतस्य वेधसाः सुः वर्षति मयिरस्ति तम् तनाः पुनान आयुषु काव्योवानम् विधावसि प्रणिम्नेने पिन्दवो ग्रन्दो वृत्रिभूर्णायः सोमाजग्रमासवाः अभि सोमानास इन्द्रवो वृष्टयः पृथिवीमिव इन्द्रम् सोमासो अक्षरङ्गोर्निर्मत्सरो मदः सोमः पवित्रे अरिषति इद्रम् रक्षाम् विले वयो कलशेर्षावधिवित्रे परीक्षिच्यते उक्तैर् यज्ञेषु वर्धते अदित्रीसो मरोचनारोहन् न प्राजसे दिवम् यज्ञान् सो जनचोदयः विप्रा अनोषतभूर्ध्वन्यज्ञस्य कारवाः तथा नाश्चक्षरसि प्रियम् अमुद्वालिरन्नरो दीभिर्निग्रा अपश्यमाहन्दि देवतातये मधोर्धारामनुक्षरतीव्रः स्वधस्तमासदः सारर्मिलाय गीतये हरिषुमानो गिरिष्ठाः पवित्रे सोमो अक्षाः हरेदर्वधासि स्वम्ये प्रस्त्वम् कविर्मध्वप्रजातमन्थसः मदेश सर्वधासि न भविश्वे स चोषसो देवासीतिमासद मदेश सर्वधासि आयो विश्वानिवार्जापसोरिहस्तयोर्दधे मदेश सर्वदासि यजिमे रोदासि मही सम्मातरे मदेश सर्वदासिदासि मुहे सज्जो वाजेभिरति मदेश सर्वदासि सष्मि कलशेष्वापू नारोहासि क्रदेषु सर्वदासि यत्सो मचित्रमुख्यम् दिव्यम् पार्थिवम्बसु तन्नः पुनान आभरा इवम् यस्त स्वर्पति इन्द्रोभगोपति ईशानापि प्रसन्धियाः वृषाः पुनान आयुषस्तन जनधिबर्हिषि हरे चान्यायिमाशरत् वसन्तधीतयोः वृषभस्याधिरेतासि सोनार्वत्सस्य मातराः उपेण्यम् देव्यः पुरालो गर्भमादधत् या शुक्रम् दोहते पजाः उपशिक्षापतस्तुषोः बिजसमाधेः शत्रूषु पवमानविदारयम् निहत्व स्वयस्थिर दूरे वा सतो हन्धी वा प्रगविर्देववीतयेभ्यो वारेऽभिरर्षति साश्वाः अभिस्पृधाः समाजरदृभ्यावाजम् गोमन् गमिन्वतिसहस्रणम् परिविश्वानिकेतसा मृशसे पपसेवती स नः सोमश्रवो विदः अभ्यर्ष बृहद्यसो भगवद्भ्यो ध्रुवम् रजम् इहम् स्तोद्रभ्याभर त्वम् राजेव संव्रतो गिलः सोमाविवेशिष पुराणो वन् मे अद्भुत ीरब्दृष्टरो वृज्यमानोगभस्त्योः सोमश्चमोषो सीदति केवलर्मघो नमम् भयः पवित्रम् सोमगच्छसि तधस्तोऽग्रे सुवीर्यम् एते धा भवन्तिन्द्रभस्तो मा इन्द्रायकृष्टायः वत्सराधस्वर्विदाः प्रगण्वन्तो अभियुजः सुष्वयैवरिबोविदाः स्वयम् श्रोत्रेव यस्कृताः नृशाक्रेवन्द्रैन्दवः सधस्तमध्ये गमित् सिन्धो रूमाप्यक्षरन् एते विश्वाः निवार्यापवमाना सासत विकानसप्तयोचे स्मिन् विषङ्गोधराभेन मादिशे यो अस्मभ्यमराभा प्रबर्णरच्छान्नभन्द धाता केन मादिशे शुक्राः पर्वसा एत बुद्धेना बीमसन् राष्ट्रा मालिनो अक्रत सदप्रासा विषम्मतिम् एते सोमास आसबोदशालिनाः सर्गासृष्टा हेत एते वातायि बोधवः पर्जन्यस्येव वृष्टयाः अग्नेरेव भ्रमावृथा एते भूताभि पश्चितः सोमासोदध्याजिनः इवाव्या न शुद्धियाः एते भ्रष्टा अमर्त्यास्रमो इयक्षन्दः पथो रजाः एते भ्रष्टा निरोदासोर्वे प्रणन्दोऽव्या रजोः उदेतमुत्तमम् रजाः तन्त्वम् तन्वानमुत्तममनुप्रवता आस उदेतमुत्तमायम् त्वम् सोमभयभ्यामधुगव्याभिहारयः अतम् तन्तु मजिकृतः सोमा अश्रमासोमधोत्मथस्य धारया अभिविश्वारियाव्या अनुप्रत्नस आजवः पदम् नवीयो अक्रमुः तु ते जानम् धूर्यम् आपमाननो भरार्यो अदाशुषोगजम् प्रति प्रजापधीरिषाः अभि सोमास आजवः पवन् ते मध्यम् मधनम् अभिकोशम् वधुश्चुतम् सोमो अरिडति धर्म शर्दधान इन्द्रियम् वसम् सुवीरो अभि इन्द्राय सोमपवसे देवेभ्यः स धमाद्याः इन्द्रो बालकम् सु अस्य पीत्वा मदानामिन्द्रो रत्राण्यप्रति जघानघनच्चनो रतोमासो अधन्विष्वः पमानास इन्द्राः श्रीनाना अक्षु वो अधन्विषराको न प्रपता यः पुराणा इन्द्रासत प्रपावमानधन्वसि सोमेन्द्राजपातवेर्यतो विनीयसे त्वं सोम नृमाद नः पवस्वचर्षणीसहे तस्मिर्जो अनुमात्याः किन्तु यदत्रेभिः सुतः पवित्रम् परिधावसि अरविन्द्रस्व्यामे पवस्वरित्रहन्तमोक्षे वीरनुमाज्राः शुजिह्वा भगो अद्भूतः सुजिह्वा भगवच्यते सो वः सु तस्य मद्भाः पवस्व लक्षसाधनो देवेभ्यः पीतजे हरे मरुद्भ्यो भायवेमदाह पवामानधिजाहितोभियोनिम् कनिक्लत् धर्माणा वायुवाणी सन्देवैः सोमते वृगा रविर्यो नावधिप्रियः विप्रहादेव वीतामह विश्वाहारूपाण्याः विषन्पूनानो यादिहर्यतः यत्र मृताः स आसते अरुरोजनयङ्गिरस्तो वः पवत आजुडग इन्द्रम् गच्छन् गविक्रादुः आपस्वतिन्दव पवित्रम् धाराजागवे अर्कस्य योनिवासरम् ृक्षन्तपस्थे अधीते रथिप्रासो अन्याधिया सङ्गावो अभ्यानौरसहस्रधारमक्षीतम् इन्दुम् धर्ता रमादिवः तम् मेधाम् मेधयाक्षन् पमानमधिजवि धर्मसिम्भूरि धायसम् तमह्यम् भुरुजो अर्द्धिजा सम्पसानम् विवस्वतः पतिम् वाचो अदाभ्यम् त्वाम् दानावधिजामजो हरिम् हिन्वन्त्यद्रिभिः पर्यतम् भूरि चक्षसम् तम् वा हिन्वन्ति वेदसः पवामानगिरावृधम् इन्दमिन्द्रायमत्सरम् येष कविरभिष्टुतः पवित्रे अधितोसते पुनोग्नभसृताः एष इन्द्रायभायवेश्व पवित्रे दक्षसाधनः एषर्विनीयते नियो मूर्धा सुतः सोमो वने विश्वविदे एष गव्युराचिक्रतत्पमानो हिरण्ययोः इन्दः सत्रादिकस्त्रितः एष सूर्येरसते पामानो अधित्यपि अवित्रे मत्सरो मदाः एष सृष्ट्यधिक्षतदन्तरिक्षे वृषा हरीः पुरानैन्दुरिन्द्रमा एष वाजी हितो नृभिन्मन सरस्वतीः अव्यो वारम् विधा एष पवित्रे अक्षरत्सोमो देवेऽभ्यः सुतः विश्वधामान्याविसन् एष देवः सुभाजते धिजो नाम मत्यः एष वृषा कनिक्रतजभिर्जामिभिर्यतः अभिर्द्रो ना यावति एष सूर्यामरोचयत्वपामानोऽपितर्षणिः विश्वाधामानि विश्वपित् येष दे। सुक्ष्मदाभ्यः स्वमः पुमानो वर्षति देवा वीरघसंसः प्रास्य धाराः अक्षरम् वृष्टस्तु तस्य उजसा देवा अय प्रभूषतः सत्यम् रजन्ति मेधसो गृणन्तः कालवो गिला ज्योतिजज्ञानमुख्यम् सुषहासो मतानी ते पुनाय प्रभूवसो अर्धासमुद्रमुख्यम् विश्वावसूरिजयम् बवस्व सोमधारयांसि सध्य रक्षसु नोरस्वनात् स मस्य कस्यचित् निन्दो यत्र मुमुच्महे दोपार्थिवम् दो रयम् दिव्यम् बवस्वधारुमान्ताम् दृष्म धाराः अस्य सुष्मिना वृथा पवित्रे अक्षरन् पुनोवाच विश्वसि इन्दर्हि यानः सोतृभिर्मज्जमा नः कनि क्रदत् यत्तिमग्निन्द्रियम् आनः सुष्मम् दृढाह्यम् वीरवन्तम् पुरःस्पृहम् सोमो अतिधारायापवामानो अशिष्यदत् अभिद्रोणान्यासदम् अप्सत्तामधूमत्तमम् हरिम् हिन्वन्त्यभिः इन्दमिन्द्राय भीतजे सुनो तामधूमत्तमम् सोममिन्द्राय वज्रिणे चारुशर्धायत्सहा स्वाध्यासो अक्रमुण् चेतनम् दिवस्पृथिव्याधिभवेन्दोद्युम् न वर्धनः भवाजानाम् पतीः तुभ्यम् वाता अभिप्रियस्तुभ्यमर्णन्ति सिन्धवः सोमवर्धन्ति चे महाः प्यायश्व समे दुते विश्वतः स्ववाजस्तरङ्गते अभ्यम् गावो घृतम् भजो बभ्रोद् दुःखे अक्षीतम् परिषे सतो भुपानस्य पते भजम् इन्दो र्चुतस्रपासेनो मघोराः सुता विदधे अक्रमुः आदीम् घृतस्य योगानो हरिम् हिन्वन्त्यद्रीभिः भी। इन्दुमिन्द्राय भीतये आदीम् हंसो यथा गणम् विश्वस्यावीव सन्मतिम् अहत्यो न गोभिरज्यते सृगो न दत्तो अर्षसि शीतम् ऋतस्य यो निवा अनुषतयोषा अनोषतयोषा जालमिव प्रियम् अवगन् राजिम् यथा अस्मेधेद्युमध्यसो मघवद्भ्यश्च मह्यम् च सनि मेधामृतस्रवाः सोमासोऽपि कश्चि गोपान्नजोर्मजाः मनायमहि वाजीव अभिद्रोणाय भ्रवश्रोत्रा हृतस्य धाराजा वाजं गोमन्दरन् सुधा इन्द्राय वाजवे वरूहाय मरुध्याः सोमा हरिषन्ति विष्णा ्रो वाचबमुदीरते धेनवाः हरीरेऽधिकनिक्रदते अभिब्रह्मेरमोहृजह्मीर्हृदस्य मातराः मन् गज्यन्ते दिवशिशम् राजस्य मुद्राश्चतुभोस्मभ्यम् सोमविश्वः आपदहस्रनाः रिषति यजद्रुहा सुत इन्द्राय वाय मे वरोनाय वरुध्याः सोमो अर्षति विष्णामे वृषा नृषाभिर्जयम् सम्बन्धि सोभवन्त्रिभिः ब्रुहन्ति रः भुवत् ऋतः भुवनिन्द्रायवत्सरः संरज्यते हरीः अभिवृतस्य विष्टवम् दुहते वृश्नीमातरः चारु प्रियताः समे न इमागिरो इमा गिरो अर्हन्ति सश्रुताः धेनोर्भाश्रो नः पवः स्वधारापवामाननयम् पृथम् जया जर्विदासीनः इन्दो समुद्रमे पवस्व विश्वमे जय राजो शर्ता नवोजसा त्वया वीरेण वीरमो विश्वपृतम् जतः क्षराणो अभिवार्यम् प्रवाजमिन्दोरिश्च दिशुषा सन्वाजसारिषीः व्रतावेदान आयुधा अङ्गेर्भिर्वाचने खयम् पूरालम् वा शयामसि सोमञ्जनस्य गोपातिम् विश्व यस्य व्रतेरधारधर्मा नस्पतेः पुराणस्य प्रभुवासो असर्जिरथ्यो यथा पवित्रे शम्भो सुता कार्श्वन् पालीन्यक्रमेत् समान्यस्वाजाग्रे व्यक्पवस्वदेभीरति अभिघोषम् मधुस्तुतम् स ज्योतीम् शिवोर्यपवमानविरोचय रत्मक्षायनो हि नु शुम्भमानर्ताजुभिर्मद्यमानो गभस्त्योः पवदेवारे अव्यये स विश्वा दासुरेव सुमो दिव्यानि पार्थि वा पवतामान्तरिक्षा आदिव स दतः पीतये वृषा सोमः पवित्रेहति विघ्नम् रक्षाम् दिदेवयोः स पवित्रे विलक्षणो हरिरर्हति धन् रसिः अभियोनिम् कणि क्रदत् स बाजीरोचनादिवः पवामानो विधाव रक्षोहावारामव्ययम् स कृतस्याधिशानापि पवमानो अरोचयत् जामिभिः सूर्यम् सह सवृत्रहा मृडाः सुतो वारिभो विददाभ्यः सोऽविवासरत् स देवः कविनेशितो द्रोढारि धावति किन्तुरिन्द्राय ृारतो जोवारेऽभिरर्षति गच्छन्वाजम् सहस्रम् एतम् कृतस्य जोष नो हरिम् यन्वञ्चद्रीभिः इन्दुमिन्द्राय भीतये एतम् जम् हरितोदश मृज्यन्ते अपश्युपाः याभिर्वदाय शुम्भते एषस्य मानूषीश्वा स्यो न भिक्षुषीदधि गच्छन् दारो न योषितम् एषस्य मद्योरसो वा चष्टे दिवः शिशुः ययम् दुर्वारमाविशत् एषस्य पीतये सुतो हरिररिणदिधन्नजिः क्रन्दन्योनिमभिप्रियम् आसुरर्हरिहन्मते परिप्रियेण धाम्ना यत्र देवाजिब्रवन् परिष्कृन् न निष्कृतम् जनाय जात जन्निषाः वृष्टिम् दिवः परिस्रव सुतयेदि पवित्राद्यषुन्दधा नवोजसा विचक्षा नो विरोचयन् अयम् सयो दिवस्परिभुजामापवित्रः सिन्धो रूर्वाव्यक्षरत् आविवासन्वरावतो अथो अन्वावतः श्रुतः इन्द्रायश्च ते मधु समीचीना दोषदहरिम् यन्वञ्चत्रिभिः यो नावृतस्यासीदत नो अक्रमे दधि विश्वामिः शम्भन्धिप्रम् धीतिभिः आयो निरुणो रजमीन्द्रम् ध्रुवे सदासि रोलो महाविन्दोस्पभ्यम् दोमभिश्वः आपस्वतः विश्वासोमपवमानद्युम्नानीयम् दमाभर विदासहस्रणीरुषाः स नः पुनान आभरयिम् स्तोत्रे सुर्यम् जनिर्मद्धागिराः पुनानयम् दवाभार सोमध्विमर्हसंरयिम् वृतन्निन्दोनमुख्यम् प्रजे वा ये राजासो अत्र मोह नन्दः कृष्णामपत्पथम् स्वितस्य मना महे दिशेतुम् दुराव्यम् सात्वाम् सोदस्यो मम व्रतम् शृण्वे विष्णेरेव स्वनः पवानस्य लक्ष्म्याः चलम् देद्विषो मही मृषङ्गो वृन्दो हिरण्यवच अष्टा भारसुतः सपास्वैरणा मही रोदीवृणासो यो न रश्मिभिः परेणस्तोपभिश्लः सदा रजैव विष्टवम् जनयन् रोचना यो जनयन् न सूर्यम् वसा नो गा अपोहरिः देव प्रत्ने न मन्ना न देवो देवेभ्यस्परि ध्यानाय सुगः देवम् देवाय साधये सोमासहस्रवादः सुगा न प्रत्नमित्तयः परिष्णे परिण्यते देवाङ्गाजीवनिवार्याभिदेवाङ्गमः पुना नो अर्षति वो मन्नः सोम वीरवस्वाद्राजा मत्सुता पवस्रभिः योज मृग्य देगो धर्मलायतः न्द्रो विश्वामस्वश्वम्भन्ति भूवः इन्दुमिन्द्राय बीतये नानो यादि हर्यतः सोमो गेर्भ्यः परिष्कृतः यस्य मेध्यादि च अपमानविदारिमस्मभ्यम् दोमसु श्रियम् हस्रभद्रम् इन्दुरचलिक्रन्थ्य भवित्रा यदक्षारदी देवयोः अपेक्षो वृधे स्वपरा स्व सुवीर्यम् भद्रम् अपि वाचयमनाः